ौनव्याख्या प्रकटित परब्रह्मतत्त्वम् युवानम् वर्षिष्ठान्तेव सदृशिगणैः आवृतं ब्रह्मनिष्ठैः आचार्येन्द्रम् करकलित चिन्मुद्रमानन्दमूर्तिम् स्वात्मा रामम् उदित वदनम् श्रीदक्षिणामूर्तिमीले श्वम् दर्पण दृश्यमाननगरी तुल्यम् निजान्तर्गतम् पश्यन्नात्मनि यथा निद्रया यस्साक्षात् कुरुते प्रबोधसमये स्वात्मानमेवाद्वयम् तस्मै श्रीगुरुमूर्तये नमयितम् श्रीदक्षिणामूर्तये बीजस्यान्तरिवाङ्कुरो जगदिदं प्राङ्गिर्विकल्पं शनैः माया कल्पितदेशकालकलनवैचित्रचित्रीकृतं मायावीव विजृम्भयत्यपि महा योगी वयस्वेच्छया तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये यस्यैव स्फुरणम् सदात्मकमसत् कल्पार्थकम् भासते साक्षात् तत्त्वमसीति वेद तस्मै श्रीगुरुमूर्तये न मदम् श्रीदक्षिणामूर्तये छिद्रघटोदरस्थितर ज्ञानं यस्य तु चक्षुराधिकरणद्वारा बहिः स्पन्दते जानामीति तमेव भान्तमनुभाग्येतत् समस्तम् जगत् अस्मै श्रीगुरुमूर्तये न म इदम् श्रीदक्षिणामूर्तये देहम् प्राणमपि इन्द्रियाण्यपि चलाम् बुद्धिं च शून्यं विदुः ीपालन्धजडोपमास्वहमिति क्रान्तावृषं वादिनो मायाशक्तिविलासकल्पितमः व्यामोहसंहारिणी तस्मै श्रीगुरुमूर्तये न म इदं श्रीदक्षिणामूर्तये हुप्रस्तदिवाकरेन्दुसदृशो मायासमाच्छादनात् सन्मात्रः करणोदसंहरणतो यो भूत्सुषुप्तः पुमान् प्रागस्वाप्समिति प्रबोधसमये यः प्रत्यभिज्ञायते तस्मै श्रीगुरुमूर्तये न म इदं श्रीदक्षिणामूर्तये पि जाग्रदादिषु तथा सर्वा स्वपि व्यावृत्ता स्वनुवर्तमानमहमीत्यन्तं स्फुरन्तं सदा स्वात्मानम् प्रकटीकरोति भजता यो मूद्रया भद्रया तस्मै श्री न म इदम् श्रीदक्षिणामूर्तये विश्वम् पश्यति कार्यकारणतया स्वस्वामि सम्बन्धत शिष्याचार्यतया तथैव पितृपुत्राद्यात्मना वेदतो स्वप्ने जाग्रतिवाय एष पुरुष माया परिभ्रामितो तस्मै श्रीगुरुमूर्तये न म इदम् स्य नलो निलोम्बरमहन्नो हि मां सुः पुमान् इत्याभाति चराचरात्मकमिदं यस्यैव मूर्त्यष्टकम् न यत्किञ्चन विद्यते विमृशतां यस्मात् परस्माद्विभो तस्मै श्रीगुरुमूर्तये न म इदं श्रीदक्षिणामूर्तये ति स्फुटीकृतमिदं यस्मादमुष्मिंस्तवे तेनास्य श्रवणा सर्वात्मत्वमहाविभूतिसहितं स्यादीश्वरत्वं स्वत सिध्येतत् पुनरक्तथा वटपिटपि समीपे भूमिभागे निषण्णं सकलमुनिजनानां ज्ञानदातारमारात् त्रिभुवनगुरुमीशं दक्षिणामूर्तिदेवं जनदपरणदुःखश्चेद दक्षं नमामि चित्रं वटतरोर्मूले वृद्धाः शिष्या गुरुर्युव गुरोस्तु मौनं व्याख्यानं शिष्यास्तु छिन्नसंशया ॐ नमः प्रणवार्थाय शुद्धज्ञानैकमूर्तये निर्मलाय प्रशान्ताय दक्षिणामूर्तये नमः गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्मा तस्मै श्रीगुरवे नमः गुरवे, गुरवे सर्वलोकानां भिषजे भवरोगिणां निधये सर्वविद्यानां दक्षिणामूर्तये नमः अङ्गुष्ठ तर्जनी योग मुद्रा व्याजेन देहिनाम् श्रुत्यर्थम् ब्रह्म जीवैक्यं दर्शयन्नो शिवः